गणेशपुराणं क्रीडाखण्डम् अध्यायं सिक्स्टि फोर् क का उवाच कालांतकेन दैत्येन प्राकाम्येन परस्परं कालान्तको विजयेते प्राकाम्यं यावदेव हि तावत् साहाय्यमकरोद्वशित्वं वेगवत्तरम् तत्या जगिरिशृङ्गं तन्मस्तके हस्तलाघवाद तेन कालान्तको भूमौ सहसा निपपादः रुधिराकृदं द्विधा भूतं दृष्ट्वा कालान्तकं तदा हाहाकारो महानासीद् दैत्यसेनाचरेश्वधा। मुसलो नाम दैत्येशो भल्लश्चैव परोसुरः महिमा चैव चत्वारो युयोर्युधाय सादराः प्राकाम्येन युयुधिरेणेकशस्त्रप्रकारिणः असङ्ख्यादा हदा देव पतिता भग्नवृक्षवद असृजलप्रवाहिन्य आसन्नद्य सहस्रशः ईशिता च वशित्वं च विभूतिश्च ययुस्तदः सहायचकृतस्य पाकाम्यस्य तदा युधि चत्वारपर्वतास्ताभिश्च दोर्ष्वपि निपादिताः तैश्च ते चूणिदा सर्वे गदा स्वर्गं सुदुर्लभम् अनिमादुषिखां धृत्वा कर्दमस्य रणे बलाद अपाडिसहसा भूमौ शदधा सव्यशीर्यद अस्रवध्रुधिरं वक्त्रा लुढन् पाणां जखौ तदा महिमा लखिमा चैव गरिमा वृक्षसञ्चयान् यक्ष्मासुरे तालजङ्घे दीर्घदन्ते न्यपादयन् तदो खण्डासुरो रक्तकेशो दैत्योधदुर्जयः आययु सर्वसैन्यानि निःश्वसन्तो महाबलाः तैराफदं बलं दृष्ट्वा वशिता सिद्धिबुद्धयः मुष्टिखादाय निजग्नुस्ता भालदेशे दृढं तदा ते विभूमौ निपतिता शतधा चूर्णितास्तदा तदो जगर्जु सर्वास्ता जयं लब्धा स्वशक्रितः विनायको विजयते सर्वास्ता एव मूचिरे अन्ये क्षुद्रतरा दैत्यास्तेऽपि ताभिर्विनाशिताः पुनः सर्वे दैत्यसिंहासिद्धिसेनां व्यनाशयन् कोलाहलो महानासीत् सेनयोरुभयोरपि हन्तु निघ्नन्तु बध्नन्तु सावधाना भवन्त्विति प्रादुरासीत् ततश्चाग्निशस्त्रशङ्खदृसम्भवः भग्नेशस्त्रे मल्लयुद्धं चक्रुर्वीरायुषान्विताः पुनश्चानियदं युद्धं परस्परविनाशनं अभवत्तु मूलं सूर्यस्तदश्चास्तमयं गदः अन्धकारेण महदा दिशो तदो देव्य उषधीर्गृह्य परस्परं परस्परम् अहोरात्रयं घोरं युद्धमासीन्निरन्तरम् असृह्द्यो दश यादा वीरवःस्तदा केटकूर्मा खड्गच्छाः शिरः कमलशोभिताः गजग्राहाप्रदकाष्ठा केशशैबलराजिताः भीरुभीतिकरवीरमहाहर्षविवर्धनाः ततो जयत्सु देवेषु सर्वदा बलशालिषु देवान्तकोयययौ चिन्तां तर्कयामास येन सर्वे देवगणाजिदास्ते स्वप्रभावदः क्वेयं तत्र बला सामान्या जनमोहिनी अष्टसिद्धि सर्वसैन्यमिदानीं नाशयाम्यहम् धृत्वा विनायकं बालं गमिष्यामि स्वमालयं यवमुक्त्वा खड्गपाणिस्वनेना पूरयन् दिशः आययौ परसैन्यानि निघ्नं खड्गेन सर्वशः भयेन मूर्छिता देवानि भेदुर्धरणीतले स्मृत्वा विनायकं देवं जखुप्राणां स्तु अश्रृङ् वः केजित् कचित् स्वर्गं गदा सुराः केचिद् दैत्यं विलोक्यैव जहुर्जीवितमात्मनः ततो भग्ना देवसेनापपाल च दिशो दश सोऽपि दैत्यघट्गपानिर्निघ्नन् पृष्ठे जखानतां गरिमा तन्निरीक्ष्याधपर्वतं वृक्षसङ्कुलम् तत्याज धैत्याहे स खड्गेन तदोष्टसिद्धयः क्षुब्धस्तत्यजः पर्वतान् बहून् चिच्छेदत्वर खड्गाखादेन लाखवाद उड्डीयमहिमा तस्य स्कन्धे तमाददे खड्गम दैत्यक्रमर्धनम व्यय तदालाक्षेपम खड़गम तस्य दैत्य मस्तक सदधा जादो नदुमूर्ध तद्भुद शरवृष्टि ददा दैतो भक्न पृष्ठचकार दश दश पंच सप्तरासौ क्षिप्वा व्याकुयांचक्रे तदस्ता भुवि बेदिरे तदोदेवायुधिपतिता स्वस्थ सिद्धिषु मुहूर्ता सवधानस्तायुर्द विनायकं समुदन्तं परिज्ञाय बुद्धिप्रोचे विनायकं कथं विचारस्तस्य स्याद्यत्र बुद्धिर्न दृश्यते पराजिदा सिद्धयस्ते देह्यनुज्ञां व्रजाम्यहं योद्धुं दैत्येन तेनाथ तेना पौरुषं चास्य लक्षये श्री गणेशपुराणे क्रीड़ाखंडे बालचरिते चुष्ट ओं